अथ सप्तमकाण्डे तृतीयप्रश्नः प्रारम्भः म् वा एतेन यं दि यद्दशमहपा वै यं वा एतेन भवन्ति यद्दशम हर्यो प्रतिपद्यते यस्वानुभोहन्ति या प्रेषन्ये दिसहीयते द्यो वै दशमेऽहन्नविभाक्य उपहन्यदेशहीयते तस्मै उपहदायव्याहसमेवान्मारभ्य समस्कृते दया व्याहसहीयते तस्मा समृद्धेन देवा लोकमाय निस्यन् पराभावमेवाथवा एतत्सत्पराज्ञाग् वै सत्त्वरा यथा किञ्चाचिदा नृचस्तेभविधैतैवान्तो नास्ति यत् ब्रह्म तत्प्रतिगणसाचक्षेधप्रतिगणः 재미 fáktāðu lááy broken ब्रह्मवादिनोदं दिकिंबालशाहस्य प्रथमेनान्मजान्यजमाना वृन्देन्द्रियमितिन्द्रि येनेतत्प्राणानन्नाद्यमिति किन्द्रिदि येनेति त्रीणिमां लोकानिधि किञ्चदर्थेनेतिशोनिधि किं पञ्चमेनेति पञ्चाक्षरां पञ्चिमिदिषष्ठेनेतिष्टाक्षराङ्गायत्रीमिति किं नवमेनेतिगस्तवमिति किं दशमेनेति विराजमिति किमेकादशेनेत्येकादशाक्षरान् दृष्ट्वा भवति किं द्वादशेने चत्वादशाक्षरान्यवास्ति तेषाम् वृन्ते एषवा आप्तो द्वादशाहो यत्रयोदश रात्रस्य मानग्रे हर्यत्रा योदयश्चयमे लोकां लोका नामाप्त्यै प्राणो वै प्रथमो प्राणापानो दाने श्रेवाम्नाद्ये प्रतिष्ठन् जि सर्वमायुर्यं जिये एवं मृत्वांसत्रयोदश रात्रमासे द्वादशाहस्तां यच्छन् जिर्यध्ये रात्रिं गुर्युर्व ष्टाच्छन्दोदम् सन्दगामेवर्वाक्षपशुवैमान्नम् महाभृतञ्यदुपरिष्टाच्छन्दोमानाम् महाभ्रतम् कुर्वन् पशुषु दैवान् आदित्याः कामयन्दोभया लोकयाररत्नयामेतञ्च रात्रमपश्यन्तमाहरन्तेनारात्नवन्यस्मिग्यस्यामुष्मिग्रस्थ एवं विद्यांसश्चतुर्दशरात्रमासदभयरेव लोकयो रत्नवन्यस्मिष्म्यश्च रात्रये शामवर्ध्यप्रराचीनान् पृष्ठानि भवन्त्यवमेव देत् लोकमभिजयन्ति यत्प्रदेशीनान् पृष्ठानि भवन्ति एवमेव देत् राजो भवतो स्वर्गं लोकमे देवान् वा इन्तानादित्याश्च वशवस्यान्वा इन्द्रे देवा प्रवनयान् भ्य एतञ्च दर्दश रात्रं मृत्यौ हन्त पृष्ठैस्वर्गल्भ्यामस्मिन् लोके पशुवान् वृत्यौ हन् पृष्ठैरा रीत्यामस्मिन् लोक आत्मन्त्रियाभ्यामस्मिन् लोके पशुभौ एवं वित्तांसस्य दर्दश रात्रमास उभयरेव लोकयत्मन्यस्मिन्वस्यामस्मिन् पृष्ठैरेवामस्मिन् लोकरत्नमन्त्रित्रियाभ्यामस्मिन् इमानेव लोकानभ्यारोहन्ति यदञ्ज पृष्ठानि सुर्वविधस्यान् मध्ये पृष्ठानि भवन्ति सविवधता योजो वै वीर्यं पृष्ठान्योज एव वीर्यं मध्यतोभ्यामेव एते स्वर्गम्नाद्यमवर्धते याश्चिक्षेव प्रतिष्ठन्ति रात्र भवतः परिगृहीति इन्द्रो वै सदृदेवताभिरासीत्सम्यावृतमगच्छत् सत् प्रजापतिमुपात्मा गच्छन्ति वायुरेष्वेव लोकेषु प्रतिष्ठन्त्यमा भवन्ति तेन सत्त्वं देवता एव पृष्ठैरवर्णते पशुवञ्चन्दोमैरोजो मै वीर्यम् पृष्ठानि पशवश्चन्दोमा ओजस्येव वीर्ये पश्रन्दि रात्रो भवतिप्रहरञ्जति रात्राव्रियस्य परिग्रीति इन्द्रो वैशिर इवा प्रतिष्ठितासीत्सोऽसुरेभ्योत्स प्रजापदमपा एतम् पञ्चलशरात्रं वज्रं पञ्चदशरात्रेणत्मन्नधत्तय एवं पञ्चदशवार्धमासस्य रात्रयोर्धमाशत् संवत्सरः प्यदे संवत्सरं वृषवो न प्रजा यन्ते तस्मात्मशव्या एता एव सुवर्ग्या पञ्चदशवार्धमासस्य रात्रयोर्धमासत्सरः प्यदेशत्सरस्वर्गो लोकस्तस्मात् सुवर्ग्या ज्योतिर्गौरायदित्रीरञ्जनपृष्ठानि ेव प्रतिष्ठन् चेदेवै इत्यस्यान्यसायिने श्रुतिताभ्यामेव स्वर्ग्यं द्विपराञ्छोभा एते सुलोकमभ्यारोचीनान् पृष्ठान्यभयं प्रत्यङ्ग्रियो भवतिष्ठत्य जीवान्नाज्यमरुन्धदेव पञ्चपञ्चदिशिक्ष्वेव प्रतिष्ठं यद् रात्रावृतो भवते सत्रं वा एतद्यदशं गोमं यच्छन्दोमापन्ति सत्रं देवता एव पृष्ठैर्वन्धते पिशोन्छन्दोमैरजो वै वीर्यं पृष्ठानि शिवश्चन्द्रामागोजस्येव वीर्ये पदुषः प्रतिष्ठन्ति सप्तदि रात्रा भवति सप्तदशप्रजापति प्रजापते रात्यादिरात्रावभितो भवतोन्नाद्यस्य परिगृहीति विराट् विक्रम्या ब्रह्मणा देवेश्वन्नेनाशुरेषते देवाकामयन्तोभय गोसं वृञ्जीमयि ब्रह्मजान्मञ्चेत एता विभुशति गोरात्रिरभस्यन्तय गोसमवृञ्जत ब्रह्मजान्न ब्रह्मवक्ष मादाभव एवं वित्तांस एतासद उभयमेव संवृञ्जते ब्रह्मजान्न ब्रह्मवक्ष मादाभवन्ति देवा एते विराजोतयोरेवना भगवानेव पुरुषस्तमात्वा तिष्ठन्दित्यो दर्गौरायतित्रियाः भवन्तीयं वा वर्ज्योगरन्तरिक्षं ञने सुभ्यामेव तु एते तु वर्क्यल्लो पराचीनानुपृष्ठान् वयन्दि प्रत्यङ्ग्रियो भवति प्रत्यपरोढ्याष्ठत्याभयोर्लोकयो तिष्ठञ्जरात्वा भवतो ब्रह्मवर्चस्यान्नाद्यस्य परिगृहीते त्यस्मिन् लोकः आसीत् तं देवात् पृष्ठे परिगृह्यं लोकमयम्परेण दिवा गीर्त्यै वर्गे लोके प्रत्यस्तापयम्परे परस्तात् पर्यगणं दृष्टैर्पावारोहन् लोके परेर्भयदपरिगृहीतो भवन्ति सुरवस्तात् गृह्णन्ति प्रयाञ्च स्वर्गान् लोकान् निष्पद्य रविदवस्तान्नस्य प्रयां परस्यामानो भवन्ति सुवर्गे वेनान् लोको भयदपरिगृह्णन् दीयमाना वैदि वा गीत्य ीर्तिं वरस्यामानो भवन्ति पृष्ठं वेदि वाश्वे वदस्यामानोभितों वरस्यामानो भवन्ति तस्मादविध्वे गोयिष्ठाग्रह्यन्ते भोयिष्ठगुचस्यते यज्ञस्यैव्याः प्राणानि भवन्ति येन्द्रो वा प्रतिष्ठितासीत् सप्रजापदनुपाधातमेकविषप्तमाहृत्येव विकंसि रात्रमाधीरुन्द्वादशमासाः इमे लोकासावादित्य एकविंशता लोकास्तेष्वेवै रोचत प्रजापतिनुपाधावत्तस्मा एतमेकविंशतिरात्रम् राजच्छत्तमाहृत्य एवम् एकविंशतिरात्रैकविंशतिरात्र भवति ऋक्त्वा एकविपुंशा गच्छन्त्येव प्रतिष्ठा एकविंशोऽरात्रावतो ब्रह्मवर्जस्य सङ्ग्रामत्वमुष्मादधिमामभिः विष्कम् यज्ञयज्ञस्येत्ते यस्तेन सङ्क्राममावभियो देवानयज्ञस्येन पक्वमुपदेहुवे सवाहम् सन्देन्दे पशोन् ष आवृञ्जेसुवः अग्निनेन्द्रेण सोमेण सरस्वत्या विष्णुना देवताभि याज्यान्वाक्याभ्याम्पदेहुवेशवाहम् यज्ञमाददेषकृतम् स्तुतगो शस्त्रम् प्रतिगलम् ग्रहमिडा मासिष आवृञ्जेसुवःपदेहुवेशवाहगोसविष्टयजुराजदेतव शान्सवनान्योतयज्ञम् देवान्सेन्द्रानुपदेहवे समाहमग्निमुखान् स्वमरुतो ये ज्वे भोदम् भव्यम् भविष्यद्वाहा नमलक्षमये सर्वषट्स्वाहायत्री त्रिष्टद्यगदेवषट्स्वाहा नमः पृथिव्यम् गरिक्षन्दोर्वषट्स्वाहा नर्वायुसौर्यवषट्वाहा नमः प्राणाव्यानपानोषट्स्वाहानुमान्स्वाहा नमः पिता पुत्रः पौत्रवषट्स्वाहा नमो भोद्भुवस्वर्मषट्स्वाहा नमः आमेभान्वा प्रजामहामाविज्ञाविशदवीर्यावान् आपो देवीया <Sellt> मा विशन्तुसहस्रस्य मा भूमा प्रहा मा प्रहासीद आमे ग्रहो भवत्वा पुरो मा विशदामसमीची आदित्यार्द्रावतोमे सहस्रस्य मा भूमा मा प्रहासीद आमाग्निष्टोमा विषदोक्षश्चात्रो मा विषत्त्वाभिरः तिरोण्ययामा सुहृतः आविशन्धुसहस्रस्य मा भूमा मा प्रहासीद अग्निनाथमाभवद्वाजा ब्रह्म मणिना रूपाणीन्द्रेण देवानुवादेन प्राणान् सूर्येणक्षत्राणि यमेन विक्रोन्द्राज्ञा मनुष्यान्फलेन न धेयानजरेण सर्वान् व्याघ्रेण्यान् पदत्रावस्तेनाजा विष्णुनावीर्व्रीणान्नार्यवेनोषीर्नस्पते नम्बरेणोर्जम् गायत्र्या चन्दाकुम् ब्राह्मणेन स्वाहाधिमाधिकाय स्वाहा स्वाहाधिगमये स्वाहा स्वाहा मनः प्रजापतये स्वाहा काय स्वाहाकस्मै स्वाहागतमस्मै स्वाहा ऋत्ये स्वाहा स्वाहा ऋतिकायी स्वाहा सरस्वती स्वाहा सरस्वती स्वाहा सरस्वती गाकायी स्वाहा भूष्णे स्वाहा भूष्णे प्रवृच्छाय स्वाहा भूष्णे रजाय स्वाहा पृष्ठे स्वाहा पृष्ठे दीपाय स्वाहा पृष्ठे प्ररूपाय स्वाहा विष्णवे स्वाहा विष्णवेन पर्यवाय स्वाहा विष्णवेन भूय स्वाहा सर्वस्मै स्वाहा नो भागस्वाहोष्ठा भागस्वाहा भागस्वाहाक्षि भ्यागस्वाहा कन्ना भ्यागस्वाहा भार्ये व्यपक्ष्मभ्य स्वाहा वारिक्षवर्ये व्यपक्ष्मभ्य स्वाहा शीर्षे स्वाहा पुरुभ्यः स्वाहा ललाटा स्वाहा मूर्धे स्वाहा मस्तिष्का यस्वाहा एकसा द्विस्वाहाेभ्य स्वाहा भागस्वाय स्वाहा पाश्वाद्भ्यागस्वाहा विन्धा भागस्वाहाद्भ्यागस्वाहा बाहुभ्यागस्वाहा जिन्धा भागस्वाहा श्रोणे भागस्वाहाद्भ्यागस्वाहाद्भागस्वाहा जिन्धा भागस्वाहा स्वाहाखण्डेभ्य स्वाहा वानाय स्वाहाण्डाभ्यागस्वाहा शिवा स्वाहा स्वाहा प्रजाभ्य स्वाहा प्रजनना भ्यस्वाहा शिवेभ्यः स्वाहा लोम स्वाहा भुजये स्वाहा लोहि दाय स्वाहाय अजेताय स्वाहाय स्वाहा श्रीपदे स्वाहा श्रीगरु स्वाहा शिणाय स्वाहा श्रीकृष्टाय स्वाहा चित्यगुण्य स्वाहा पुष्पकर्माय स्वाहा चित्रौष्टाय स्वाहा शिप्ले स्वाहा श्रीभदे स्वाहाश्वेतानुगाजाय स्वाहाये स्वाहा ललामाय स्वाहा स्वाहा कृष्णहिताय स्वाहा रोहिकाय स्वाहाय स्वाहीदृशाय स्वाहा कीदृशाय स्वाहा तादृशाय स्वाहा सदृशाय स्वाहा विदृशाय स्वाह शुशा स्वाह रोका स्वाह सर्वस्मे स्वाह कृष्णा स्वाहा श्वेता स्वाहा भिशृङ्गाय स्वाहा स्वाहा वरुणा स्वाहा घोरा स्वाहा स्वाहा स्वाहा रोहिता स्वाहा शोणा स्वाहा श्यामा स्वाहा श्यामा स्वाहा भागलाय स्वाहा सुरूपा स्वाहा अनुरूपा स्वाहा विरूपा स्वाहा स्वरूपा स्वाहा शबला स्वाहा कमला स्वाहा कृष्णये स्वाहा कृष्णशक्ता स्वाहा सर्वस्मै स्वाहा श्वाहा मूले विश्वाहाश्वाहाजे विश्वाहा पुष्पे विश्वाहा फले गृह विस्ह गृृश्वाहाने स्वाहा स्वाहा वनस्पतिभ्यस्वाहा मूरे स्कन्ध्वाहा भे विस्वाहा पुष्पेष्ठाष्टा विवाहा परिशिष्टा स्वाहा संविशिष्टा विस्वाहोच्छिष्टा स्वाहा रिक्ता स्वाहा रिक्ता स्वाहा प्ररिक्ता स्वाहा समो रिक्ता स्वाहो ऋक्ता इति सप्तमकाण्डे तृतीयः प्रश्नः समाप्तः